पय शा अव इति प्रत्यहारसूत्राणि वधोध्यायः प्रथमः पादः वृद्धिराजै वरेम् गुणः इको गुणवृद्धि न धातु लोपहायधातुके इन्द्रि च दीधिरेषाम् फलोऽनन्तराः संयोगः मो नासिका वचनोऽनुनासिका तुल्यास्य प्रयत्नम् समरणम् दिवचनं ईतुभेद्विवचनम् प्रगृह्यम् अथ सोमानिपात एपाचनम् ओ सम्बुद्धौ शापर्येतामनाक्षे पुय दूतौ च शब्दम्यर्थे दाता आद्यन्तरेकस्मिन् कल भसङ्ख्या स्नान्ताय गतिजानिष्ठा सर्वादीनि सर्वनामानि विवाशादिसमासे बहुवीहौ नमो द्वितीया समाजे द्वे च विवाह जगति प्रथमचरमचयाल पादपतिपयने माश पूर्वपरायलक्षणोत्तरापराधराणि व्यवस्थायाम् सञ्ज्ञायाम् ज्ञातिधनाख्यायाम् अन्तरम् महिर्यो ्यानयो स्वरादिनिपातमव्ययम् त्वद्धितश्च सर्वविभक्तिः रिन्मेजन्तः वातो शृङ्गः अव्ययीभावश्च श्रीसर्वनामस्थानम् सुरनपुंसकस्य न वेति मृदुशौन्त्यात् परः एतस्त्वशे शिधाने योगा इत्यादितमः पुरान्नपरः अलोञ्चस्य गित्वा आदे परस्य अनेकाश्चित् सर्वस्य स्थानिवधानेषु नौ अ च परस्मिन् पूर्वविधौ न पदान्तचनवलेयलोप स्वरसमरणानुसारदीर्घश्च ऋषु निर्वचने च प्रदर्शनम् लोपः विक्रे लोके प्रत्ययलक्षणम् नाताम् गच्छस्य अजोन्त्यादिति अलोन्त्यात् पूर्व उपधा तस्मिन्निति निर्दिष्टे पूर्वस्य तस्मादित्युत्तरस्य स्वरूपम् शब्दस्य शब्दसञ्ज्ञा वर्निसमरणस्याप्रत्ययः अपरत्तद्वालस्य वायिरन्तेन सहेता येन विधिकलस्य वृद्धिरियस्य चामाधिक्रिज्ञम् प्रदादीनि च ेषे ऋतमोषि सर्वशक्त्रे लोके चतुर्दशाध्यायस्य द्वितीयः पादः भवान् ज्ञाने विमाश्रोणो साधुधातु पाले स्व भवति ज्ञाने दूरादीशालन्ता च लिङ्ितावात्मने परेषु उश्च वा नमः अनासि यमो बन्धने विभाषो dar things vidinik vidha sat vipraya udopadarthaikarmano rnya tarasya umad vacha no padartham tadvad vancinunjala sat vidimikit keshaka satya उच्चैर्वाक्तः नीचैरन् आर्तः समाहारुतिभूतम् बुद्धौ जय कर्म कर्मधारया पुनः समासमुख विभक्तिश्च पूर्वनिपाते पार्थवदपातुरावृतया प्रातिपदिकम् कृतदृशसमासाश्च हरस्को न पुंसके प्रातिपदिकस्य गोस्त्रियोपसज्जनस्य लुप्तदिवरुखी ोण्या लोके उक्तवर्तिवचने विशेषणानाम् चा जाते तदशिष्यम् सद्यः प्रमाणत्वात् लोकयोगाप्रख्याः योगप्रमाणे च कलभाे दर्शनम् स्यात्मानन्दया प्रमाणत्वात् ख्यायामेकस्मिन् बहुवयनमन्यतरस्याम् अस्मदो देवश्च फल्गुनिनां च नक्षत्रे फल्गुनि जानक्षत्रे। प्रोष्ठपदानां च नक्षत्रे पश्चपदानां च नक्षत्रे फल्गुने प्रवचपदानां च नक्षत्रे छन्दसि पुनर्वस्वोरेकवचनम् छन्दसि पुनर्वस्वोरेकवचनम् छन्दसि पुनर्वसोरेकवचनम् छन्दसि छन्दसि छन्दसि छन्दसि छन्दसि छन्दसि छन्दसि छन्दसि पुनर्वसोरेकवचनम् पुनर्वसोरेकवचनम् पुनर्वसोरेकवचनम् छन्दसि पुनर्वसोरेकवचनम् छन्दसि पुनर्वसुरेकवचनम् छन्दसि पुनर्वसोरेकवचनम् अल्मुनि कोष्ठपदानां च नक्षत्रे अल्मुनि कोष्ठपदानां च नक्षत्रे छन्दसि छन्दसि पुनर्वसोरेकवचनम् फल्गुनी गोचपदानाम् च नक्षत्रे छन्दसि पुनर्वसोरेकवचनम् विशाखयोश्च फल्गुने प्रोष्ठपदानाम् च नक्षत्रे छन्दसि पुनर्वसोरेकवचनम् विशाखयोश्च विशाखयोश्च छन्दसि पुनर्वसोरेकवचनम् श्च छन्दसे पुनर्वसोरेकवचनम् विशाखयोश्च पृश्य पुनर्वशो दक्षत्र द्वन्द्वे बहुवचनस्य केववचनम् नित्यम् शिष्य पुनर्वशोर् नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनम् नित्यम् ते पुनर्वसवो नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनम् नित्यम् ऋष्य पुनर्वसो ते पुनर्वसोर् देशस्य पुनरवाशवो नक्षत्रद्वन्द्वे नाक्षात्रद्वन्द्वे नाक्षात्रद्वन्द्वे तेषा पुनर्वशोर्नक्षत्रद्वन्द्वे बहुवचनस्य बहुवचनस्य बहुवचनस्य बहुवचनस्य तेष पुनर्वो नक्षत्रद्वन्द्वे बहुवचनस्य ते पुनर्वशोर्नक्षत्रद्वन्द्वे बहुवचनस्य तस्य पुनर्वशोर्नक्षत्रद्वन्द्वे बहुवचनस्य विवचनम् नित्यम् द्विवचनम् नित्यम् द्विवचनम् नित्यम् बहुवचनस्य द्विवचनम् नित्यम् बहुवचनस्य द्विवचनम् नित्यम् बहुवचनस्या द्विवचनम् नित्यम् तिष्य पुनर्वस्वो नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनम् नित्यम् तिष्य पुनर्वसोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनम् नित्यम् तिष्य पुनर्वसोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनम् नित्यम् श्च तस्य पुनर्वस्वो नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनम् नित्यम् विशाखयोश्च तस्य बहुवचनस्य द्विवचनम् नित्यम् विशाखयोश्च तिष्य पुनर्वसोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनम् नित्यम् छन्दसि पुनर्वसोरेकवचनम् विशाखयोश्च तिष्य पुनर्वस्वो नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनम् नित्यम् छन्दसि छन्दसि पुनर्वशवोरेकवचनम् विशाखयोश्च तिश्य पुनर्वसवोर्नक्षत्रगुन्दे बहुवचनस्य द्विवचनम् नित्यम् छन्दसि पुनर्वसवोर्नक्षत्रवसवोरेकवचनम् विशाखयोश्च तिष्य पुनर्वसवोर्नक्षत्रगुन्दे बहुवचनस्य द्विवचनम् नित्यम् अल्मीकोषुपदानाम् च नक्षत्रे छन्दसि पुनर्वसवोरेकवचनम् श्चोवचनस्य द्विवचनम् नित्यम् फल्मुनि प्रोष्ठपदानाम् च नक्षत्रे छन्दसि पुनर्वसवोरेकवचनम् विशाखयोश्च तेष पुनर्वस तिश्य पुनरवसवोर्नक्षत्रद्वन्ने बहुवचनस्य द्विवचनम् नित्यम् फल्गुनी प्रोष्ठपदानाम् च नक्षत्रे छन्दसि पुनर्वशवोरेकवचनम् विशाखयोश्च तिश्य पुनर्वशोर्नक्षत्रे बहुवचनस्य द्विवचनम् नित्यम् स्वरूपानामेक एकविभक्तो सरूपाणामेकशेष एकविभक्तौ सरोपानामेकशेष एकविभक्तौ सरूपाणा सरोपाणा सरूपाणा मेकशेष मेकशेषा सरूपाणामेकशेष सरोपाणामेकशेषा सरोपाणामेक एकविभक्तौ एकविभक्तौ एकविभक्तौ स्वरूपाणामेकशेष एक एकविभक्तौ स्वरूपाणामेकशेष एक एकविभक्तौ स्वरूपाणामेकशेष एकविभक्तौ दृश्य पुनर्वस्वो नक्षत्रद्वन्द्वे बहुवचनस्य तिवचनम् नित्यम् स्वरूपाणामेकशेष एकविभक्तौ एक तिष्य पुनर्वसवोर्नक्षत्रवृन्दे बहुवचनस्य द्विवचनम् नित्यम् स्वरूपाणामेकशेष एकविभक्तौ तिष्य पुनर्वसवोर्नक्षत्रदन्धे बहुवचनस्य द्विवचनम् नित्यम् रूपाणामेकशेष एकविभक्तौ वृद्धो तल्लक्षणश्चेदेव विशेषः वृद्धो यून तल्लक्षणश्चेदेव विशेषः वृद्धो तल्लक्षणश्चेदेव विशेषः वृद्धो यून तल्लक्षणश्चेदेव विशेषः वृद्धो यून तल्लक्षणश्चेदेव विशेषः वृद्धोऽयुना वृद्धोऽयुम्ना वृद्धोऽयुना वृद्धो यून तल्लक्षणश्चेदेव विशेषः तल्लक्षणश्चेदेव विशेषः तल्लक्षणश्चेदेव विशेषा विशेष विशेषः तल्लक्षणश्चेदेव विशेष वृद्धोऽयुना तल्लक्षणश्चेदेव विशेषः स्वरूपानामेकशेष एकविभक्तौ सरोपाणामेकशेष एकविभक्तौ वृद्धो वृद्धो यूना तल्लक्षणश्चेदेव विशेषः वृद्धो यून तल्लक्षणश्चेदेव विशेषः वृद्धोऽयु न तल्लक्षणश्चेदेव विशेषः तेष पुनर्वस्वो नक्षत्रगुर्देवौ वचनस्य द्विवचनौ नित्यम् स्वरूपानामेकशेष एकविभक्तौ वृद्धोऽयुन तल्लक्षणश्चेदेव विशेषः तस्य पुनर्वसोर्नक्षत्रगुर्देवौ वचनस्य द्विवचनम् नित्यम् सरूपाणामेकशेष एकविभक्तौ वृद्धोऽ यूना तल्लक्षणश्चेदेव विशेषः शिष्य पुनर्वचोर्नक्षत्रौ वचनस्य दिवचनम् नित्यम्भक्तौ वृद्धोऽ यूनातल्लक्षणश्चेदेव विशेष विशाखयोश्च तस्य पुनर्वस्वो नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनम् नित्यम् स्वरूपाणामेकशेष एकविभक्तौ वृद्धो यूनतल्लक्ष्मणश्चेदेव विशेषः विशाखयोश्च तस्य पुनर्वसवोर्नक्षत्रद्वन्द्वेव वचनस्य विवचनम् नित्यम् सरूपाणामेकशेष एकविभक्तौ विद्धो यो नातल्लक्षणश्चेदेव विशेषः श्वसि पुनर्वस्मोदेववचनम् विशाखयोश्च तेषा पुनर्वस्वो नषत्त्वन्द्वे बहुवचनस्य द्विवचनम् नित्यम् स्वरूपानामेकशेष एकविभक्तौ छन्दसि पुनर्वसवोरेकवचनम् विशाखयोश्च तस्य पुनर्वसवोर्णम् क्षत्रगम् देवौ वचनस्य द्विवचनम् नित्यम् स्वरूपामेकशेष एकविभक्तौ सिद्धो यो न तल्लक्षणश्चेदेव विशेषः पुनर्वसवो रेकवचनम् आरयोश्च ईश्वर पुनर्वसवो रेक्रदं देवौ वचनस्य दिवचरुत्सम् नित्यम् त्वरूपाणामेकशेष एकविभक्तौ यूनतल्लक्षणश्चेदेव विशेषः